भास्वाडर्घ समित्य रक्तकिरणस्य ममाधिपक् काश्यपोर्विन्दोष्वकुजस्य मित्रमरिकस्त्रिस्तः शुभक्त्राङ्मुखः शत्रुर्भार्गवशौरजो प्रियगुडः कालिङ्गदेशाधिपो मध्ये वर्तुलमण्डले स्थितिमितः कुर्यात् सदा मङ्गलम् श्रुगो वरमुखो गौर्यच्चजातर्पितः षट्सप्ताग्निदशाध्यशोभनफलो शत्रुर्बुधार्कप्रियः सौम्यो यामुनदेशपर्ण च समित्कुर्यात् सदा मङ्गलम् भौमो दक्षिणदिक्त्रिकोणि निरयो वन्तिपतिः कादिर प्रीतो वृश्चिकमेषयोरधिपतिर्मुर्वप्रचन्द्रप्रियः न्यारिश्य त्रिशुभ्रजश्च वसुधा धाता गुहाधीश्वरद्वाजकुलोद्भवो ऋणर्जिः कुर्यात् सदा मङ्गलम् उदङ्मुखः समिदपा मार्गो त्रिगोत्रोद्भवो बाणेशानत्र विसुतो वैरीकृतानुष्णर्ग कन्या युक्मपतिर्दशाष्टम चतुष्षण्णो विष्वाराधन तर्पितो मघदमः सदा मङ्गलम् जीवश्चोत्तरदिङ्मुखोत्तरकुब्जातोऽङ्गिरो गोत्रतः पीतोमित्य सिन्ध्वधिपतिश्चापश्च मीनाधिपः सूर्येन्दुक्षिति च कुर्यात् सदा शुक्रो भार्गवगोत्रौदुम्बरैस्तर्पितः स्तुतिवशात् प्रीतोऽर्कचन्द्राहितो नारी भोगकर नादः कुम्भमृगर्षयोगृत् शुक्रज्ञयोर्गुरुधृगः शक्तिष्ठुभदो शुभो धनुगतिश्चापाकृतो मण्डले सन्दिष्टञ्चिरजीवितानि बलदः कुर्यात् सदा कृष्णाङ्गशूर्पासनो यां यायाभिमुखश्च चन्द्ररविरुत्पैीनसी षट्स्तशुभगृत्कराळवदनः प्रीतश्च दूर्वाहुतौ दुर्गापूजनतः प्रसन्नहृदयः कुर्यात् सदा मङ्गलम् केतुर्जैमिनि गोत्रजः कुश समित्वायव्यकोणे स्थितः चित्राङ्गध्वजलाञ्जनोऽ भगवन् याम्याननः शोभनः क्षत्रिस्त शुभकृञ्चचित्रितलनुकुर्यात् सदा मङ्गलम्